महामृधनदीम् घोरां योधावर्तननिःस्वनाम् को वा नारायणादन्यः कंसहन्तायुधिष्ठिर एष शक्ररथे तिष्ठन्स्तान्यनीकानि भारत व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयं मानयामासमानार्हां देवकीं ससुहृद्गणाम् यशोदां रोहिणीं चैव अभिवाद्य पुनःपुनः उग्रसेनञ्च राजानमभिषिच्य जनार्दनः अर्चितो यदु यदुमुख्यैश्च भगवान् वासवानुजः ततः पार्थिवमायान्तं सहितं सर्वराजभिः सरस्वत्यां जरासन्धमजयत् पुरुषोत्तमः भीष्म उवाच शूरसेनपुरं त्यक्त्वा सर्वयादवनन्दनः द्वारकाम् भगवान् कृष्णः प्रत्यपद्यत केशवः प्रत्यपद्यतयानानि रत्नानि च बहूनि च यथार्हम् पुण्डरीकाक्षो नैरृतान् प्रतिपालयन् तत्र विघ्नम् चरन्ति स्म दयितेयाः सह दानवैः ताञ्जघानमहाबाहुः वरमत्तान् महासुरान् सविघ्नमकरोत्तत्र नरको नाम नैरृतः सन सुरसघा विदितोव प्रभावत प्रभव